देवावूचुः भगवन् भूतभव्येष नस्त्रायस्व इहागतान् भयम् दितिसुताद्घोरम् भवत्यद्य दिवानिशम् भगवन्सर्वभूतानाम् स्वयम्भूरादिकृद्विभुः स्रष्टात्वम् हव्यकव्यानामव्यक्तप्रकृतिर्ध्रुवः ब्रह्मोवाच श्रूयतामापदेवम् हि दुर्विज्ञेयामयापि च नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः अव्यक्तः सर्वभूतानामचिन्त्यो विभुरव्ययः ममापि स तु व्यसने परमागतिः नारायणः परोव्यक्तादहमव्यक्तसम्भवः मत्तो जज्ञुः प्रजालोकाः सर्वे देवासुराश्च ते देवा, देवा यथाहं युष्माकं तथा नारायणो मम पितामहोहम सर्वस्य सविष्णुः प्रपितामहः तमिमम् विबुधा दैत्यम् सविष्णुः संहरिष्यति तस्य नास्ति ह्यशक्यम् च तस्माद्व्रजतमाचिरम् भीष्म उवाच पितामहवचः श्रुत्वा सर्वे ते भरतर्षभ विबुधा ब्रह्मणा सार्धम् जग्मुः क्षीरोदधिम् प्रति आदित्या मरुतः साध्या विश्वे च वसवस्तथा रुद्रामहर्षयश्चैव अश्विनौ च सुरूपिणौ अन्ये च दिव्या ये राजंस्ते सर्वे सगणासुराः चतुर्मुखम् पुरस्कृत्य श्वेतद्वीपमुपस्थिताः गत्वा क्षीरसमुद्रन्तम् शाश्वतीम् परमाम् गतिम् अनन्तशयनम् देवमनन्तम् दीप्ततेजसम् शरण्यम् त्रिदशा सनातनं देवं देवम् ब्रह्ममयम् यज्ञम् महाबलं भूतं भव्यं भव्यम् भविष्यञ्च प्रभुं लोकनमस्कृतं नारायणम् विभुम् देवम् शरण्यम् शरणम् गताः